षष्ठकाण्डप्रारम्भः ङ्करोति देव मनुष्यादिशोभ्यभन्त प्राचीन देवालक्षिणाभितरः प्रदेशे मनुष्यामुदे वृद्धाय प्राचीनभगुं शङ्करोति देवलोकमे पदद्धिमानमुपावत्तरेलोकमनुष्यलोकान्नास्मान् लोकाक्षेतव्यमिवेत्या भक्तो हि तद्वेदयद्य लोकेऽस्ति मानवे निष्पदे काशान्त कृपया लोकयोरभिजित्ये चेतस्पश्रुवपदे नृन्दते मृतावालेऽध्यायत्यस्पश्रुमृतामेवत्पदमेत्यापहत्ययज्ञ भूत्वा मेधमुपैरस्वर्गम् लोकयन्ताप्सुक्षा वेदरन्नाप्सु स्नादिधाक्षादेव तपसि अवरुन्धयतीर्चेष्नादितीर्चेति चेष्नादितीर्चमेव समाना भवत्यपोक्षात्यन्तरत एव मेध्य भवति वा ददादे सौम्यं मे क्षौ देवतया सोममेव देवतामुपैक्षे सोमस्य तनोदेवमं मे पाहेत्या हस्त्वामेव देव मुपैत्यसौ आदिशमेवैतामाशाश्चे स्तोषाधानं पादयोर्पादपानं पितृणाम् प्रघातादित्यानाम् प्राचीनताना विश्वेनां देवानामोदं नक्षत्राणामजे काशास्तद्वा एतत् सर्वदेवत्यै यद्वासो यद्वासदा देक्षयति सर्वाभिदेवेण देवताभिद्ये प्राणामेव मनुष्यस्तस्यासनम् प्राणादित प्राण एव लेदेवास्यत्प्राणस्तेन सहमे समुपेदृतम् देवानां निष्पक्वम् मनुष्याणाम् तद्वा एतत् सर्वदेवत्यै यन्नपणीतै यन्नपणीतेनाभ्यङ्के सर्वा एव देवता प्रच्छुतो वा एषो देव लोकेक्षितोनाभ्यन्तेषाभ्यावृत्या लो इन्द्र वृत्तमहन्तस्य कले निकापनापदत्तथाञ्जन भवत्यथाक्षुरेवभ्या द्रव्यस्तवन्ते दक्षिणं पूर्गवान्ते सव्यगं हि पूर्वं मनुष्या धावते नेव हि मनुष्या धावन्ते पञ्चकृत्वाज्ञो येज्ञरुन्ध्ये परिमितमां प्रे परिमितकं हिमनुष्या आन्ध्रदे पदोलयाङ्गे पदोलया हि मनुष्या आन्त्रे व्यावृन्ते याञ् वेदवद्रैव स्यात्सदोनयाञ्च मित्रत्वायेन्द्रावृत्तमहन् यज्ञयं स देवमाधेस्तदभोदत्राभक्ते दग् अभवनयद्दर्भवञ्जेनैः पवयधिया एव मेध्यानिज्ञयास्तदेवापस्ताभिरेवैनं पवयविद्वाभ्या भवयत्र होरात्राभ्यामेवैनं पवयदित्रयः पवयदित्रै मे लोका पवयति पञ्चभिः पवयति पञ्चाक्षागुण्डिः पान्तो यज्ञो निज्ञादेवेन पवयति षड्भिः पवयति षड्वादवेवेनं पवयति सप्तभिः पवयति सप्तछन्दागं छन्दोभिदेवेनं पवयति नभिः पवयति नवमे पुरुष ेव पुरुषस्त्व परिवर्णम् पवयति परिस्त्वा पुनात् वेत्पचर्मनदेवेन पवयति वास्वापुनात् वित्याह वा देवैनम् पवयति देवस्ता समिता पुनात् वित्याह सित प्रसूत एवैनं पवयनि दस्यते पवित्रपदे पवित्रेणस्त्वम् पुने तच्छके निमित्याहादितमेवे तास्ते न्धो वै देवायज्ञाय पुनदतगेवा भवनय एवं विद्वान् यज्ञाय पुनीत प्रपादयति मनुष्यलोकये वेदम् पवयित्वा देवलोकं प्रणयत्य दीक्षितगे गयाहुत्ये प्याहस्रु वेन चतस्रो जुहोदि दीक्षितत्वायसृजा पञ्चमीं पङ्क्तिपान्तो यज्ञो यज्ञमेवावरुन्ध आकोत्यै प्रयुज यज्ञे स्वाहेत्याकोत्याहि पुरुषो यज्ञमभिप्रयुङ् यज येति मेधाये मनसे ज्ञे स्वाहेत्याह मेधयाहि मनसा पुरुषो यज्ञमभिगच्छति धरस्पत्ये गोष्णे ज्ञे स्वाहेत्याह वाेधर पृथिवे कोषावाचैव पृथिव्या यज्ञं प्रयुंस आपो देवे बृहतेर्विश्वशम्भु भगित्याह या वेव्यास्ता आपो देवेर्बृहतेर्विश्वशम्भुभो यते तज्जर्नभ्रूया दिव्या आपोषान्तारिमं लोकमागच्छे लोकाय शमयतिरस्मा शान्तायमम् लोकमागच्छन्ति दिव्या वा पृथिवी वित्याहव्या वा पृथिव्यो रिह यज्ञपुर्वन्तरिक्षमित्याहान्तरिक्षे हि यज्ञो बृहस्पतिर्नाहविषा वृथा ब्रह्म मे देवानाम् बृहस्पतिर्ब्रह्मणैवास्मै ृथानमेव परिवृणक्ति प्रजापतसोष्टेनात्रयच्छाजुहो यज्ञस्य जत्या नृष्टुछन्दसामुदयच्छदित्यास्मादृष्टुभाजुहो जत्यै द्वादश सम्बन्धान्युदयच्छन्नित्याहस्तस्माद्वादशभर्वात्सबन्धमिदो देक्षयन् निगे शर्ग नष्टग्भाग नष्टज्ञादे वाचे मेन यादेक्षयति विश्वे देवस्य नेतरित्याह सावित्र्ये तेन हतो वृणेत लक्ष्य नित्याहमिदेवत्यैतेन विश्वे नाग्यसेत्याहवैष्व देव्ये तेन भ्युम्न पुष्यसहित्याः पौष्ट्येते न सर्वदेवत्यायदेत यच्चाधेत्रयति सर्वाभिदेवैनन्देवताभिदेक्षयति षष्टाक्षरं प्रथमं फलमष्टाक्षराणि त्रीणि यामित्रीणि तान्यष्टावुपयन्त्रियाणि चत्वारितान्यष्टौ यदष्टाक्षरा तेन गायत्रीकादशाक्षरा तेन तृष्टज्ञद्वादशाक्षर तेन जगति ेषत्सर्वाणि छन्दागं श्रियतेतयच्चादेक्षयति सर्वेऽभिदेवैरञ्चन्दोभिर्देक्षयति सप्ताक्षरम् प्रथमम् पदगम् सप्रपदाशक्वली पशपश्चक्परि पशूनेवावरुन्धगे कस्मादक्षरादना तम् प्रथमम् परन्दस्माद्यद्वाचो प्तै न्यूनयाजुहो दिग्न्यूनहाध्यप्रजापदिप्रजासृजनप्रजानागम् सृष्ट्यै ृक्सा मे देवेभ्यो युज्ञाया तिष्ठमाने कृष्णारूपं कृत्वा वक्रम्या तिष्ठतां ते मन्यन्तयं वा इमे उपावत्स्यतस्य इदं भविष्यति उपामन्त्रयन्दते अहोरात्रयोर्ममानमपनिधाय देवानुपावर्तेता मेशवारुजोवर्णो यत् शुक्रं कृष्णा विनस्यैततां नो यत्कृष्णमृक्षामयो शिल्पे स्थयित्याह स्थाने एवावृन्दो यत् शुक्रं कृष्णादिनस्यैतरात्र्यायत्कृष्णं च देवैनवावृन्धे कृष्णादिनेन दीक्षयति ब्रह्मणो वा एतद्द्रोपै यत्कृष्णार्जिनं ब्रह्मणैवीक्षयति दीक्षमाणस्य देवेद्याः यथायुदेवेतद्गर्भो वा एतद् दीक्षिण नृदे तस्माद् गर्भाः प्रावृता जायन्ते न पुरा भोमस्य क्रयादपोऽ पुरा भोमश्च क्रयादपोर्गर्भा प्रजानां परापादुकास्य कृते सोमेवोर्नृते जायत एव तथो यथा पृथिराजुं संरक्ष्यो नृदयदस्वर्गं लोकीयन्तपोर्जं व्यभजन्त ततो यदत्यशिष्यते भवन्नोर्वेशरा यच्छ मये मेखलाभवत्योर्जमेवावन्ध मध्यदस्सं नश्यदि मध्य देवा स्मावोर्जन् दधा दिवस्मान्मध्यवोर्जाभुञ्जनवोर्ध्वं वै पुरुषश्च नाभ्यै मेध्यमवाजे न मेऽद्यञ्जन् मध्यजस्सं त्री ययो रथस्त्री यं यो मस्त्रीन्दशराभवन्तच्छरागुन्धरत्वं वज्रोमे शराःखले मनुष्यस्य भ्रातुर्यो यच्छरमये मे खला भवति वज्रेणैवक्षाकृतं भ्रातुर्यं मध्यतो महदेभवति त्रमज्रे प्राणस्त्रमृतमेव प्राणं मध्यतो यजमाने दधातिपृथ्वीभवति रज्ज मेखलया इदमानन्दे क्षयति योत्रेण पत्नीज्ञो दक्षिणामभ्यमभवत्तरिन्द्रोजायत् सोमन्यतयोपायितो जरिष्यदे सविष्यते चितां प्राविशत्तस्या इन्द्रयवाजायत सोमन्यतयो वैमजितोपरोजरिष्यदे स इदं भविष्यति चित्तस्या नश्च यो याचिनत्सा तवशायै जन्मता गुंहस्तेन्यवेष्टे रताम् हृण्यरथात् सा कृष्णविषाणा भजिन्द्रस्य योजरसि माहिंसे हृकृष्णविषाणा प्रयच्छति सयो यज्ञम् करोति सयोनिञ्जक्षिणा गुंसयोमिन्द्रयो नित्वा सुरस्मादकृष्टपच्छायः पच्यन्ते सुविफलाभ्यस्तौषधेभ्यस्मादोदयः फलम् गृह्णान्धस्तेन कण्डो येन पामनम् भावुका प्रजास्तु यत् स्मगेदनग्नम् भावुका कृष्णविषाणया कण्डो यते त्रिकृष्य गोपीठा जलपुरा दक्षिणाभ्यो नेतो कृष्णविषाणाम भजते यत् पुरा दक्षिणाभ्यो नेतो कृष्णविषाणामभजते यो निः प्रजानाम् परा पादुकास्यातासु दक्षिणासु चात्त्वा ने कृष्णविषाणाम् प्रास्य त्रियो सर्वे यज्ञस्य चात्मा न यो निः Bye-bye. Yeah. ैवेभ्योपामद्विज्ञाया तिष्ठमानाधावनस्पदेशत्स्वेधावाग्मनस्पदि सुमद्रियासुन्दुभो यातो न वैयावीणायातदण्डं प्रयच्छति वाचमेवावरुन्ध औतुम्बरो भवत्योर्वावुसुम्बरमोर्जमेवावरुन्धे मुखेन संवितो भवति मुखत एवास्वा वोर्जन्त जाभुञ्जते क्रीतय सोमे मैत्रावरुणानुघण्डम् प्रयच्छति मैत्रावरुणो हि पुरस्ता धृत्यभ्यो वाकम् विभजिता मृत्युजो यजमानैः प्रतिष्ठापयम् यस्वाहा यज्ञम् मनसा हि पुरुषो यज्ञमभिगच्छति स्वाहा द्यावापृथिवेभ्या वित्याहत्या वा द्यावा पृथिव्योरि यज्ञस्वाहोरोहन्तरिक्षादित्याहान्तरिक्षै हि यज्ञस्वाहा यज्ञम् वा तादारभयत्याहायं वा वयः पवदेभजे मुष्टे करो देवाजम् गच्छति यज्ञस्त धृत्यादेक्षिष्टायम् भनयदितृपादि स्वाह देवेभ्य एवैनं प्राहतृच्छेरुभयेभ्य एवैनम् देवमनुश्चेभ्यः प्राहन पुराणक्षत्रेभ्य वाचम् विसृजे ह्यः यज्ञम् इच्छन्त्यक्षत्रे सुवाच विसृजोवाभिवाच विसृजति यदि विसृजयज्ञावेव यज्ञेनैव यज्ञनामहयित्याह यज्ञमेव तन् वृदयति सुपादाना सद्वशयित्याह व्यक्तमेवावरुन्ध ब्रह्मपादिनः वदन्ति होतव्यम् दे छिलस्य हो गृहातव्या वेदे क्षितोपदायजुहूया जन्मजुया यज्ञपरन्तः प्राणा वै देवामनोजातामनोयस्तेष्वेव पराक्षञ्जुहन्नेव हुदन्नै बाहुदग्रस्वन्तं वेदे खलु वे रक्षोहाय न्धि महेत्याहाग्निमेवाधिपान् कृत्वा स्वपित रक्षतामवहत्यां हत्यमिपवाघेशकरोधियोगे क्षिदस्वृत्वमग्ने प्रथमाधेत्याहाग्नि देवानाम् व्रतमदि एवं व्रतमानं भयति देवामग्नेश्वेत्याह देवासन्मत्ते ऋत्वं यज्ञेश्वे ज्ञेत्याहैतव्यम्भयज्ञैश्वेरते पवैदे ुष इन्द्रियम् देवतामन्त्यश्वे अभिमाण्डित्याहेन्द्रिये नैवेनम् देवताभिस्सन्नय दियदे तद्विजर्णभ्रूयावद एव वशोनभिरेक्षे तावन्तास्य पशवस्योदा श्वेय सोमा भोगो भवेत्याः परिमिता नैव पशो नवरुन्धे गन्त्रमभोगाय भवेत्याः यथा दैवतमेवेना प्रतिगन्धादिभागवेत् पावरुणायत्वे जियदेवमेतानानुदिशे यथा दैवतं दक्षिणागमयेन देवताभ्यो वृष्ट्य श्रियदेवमेता अनुदिशति यथा न्नपादित्याहयत्सोमेऽभ्यङ्गयगुम् सदेवम् तद् सोमावक्रमशमितिवा वेददाहाच्छिन्नन्तम् पृथिव्यानुगेशमित्याहसेतुमेव कृत्वा ते देवावेदभयजनमध्यमसायतिशो न प्राजानन्ते न्यमुपाधासन्तः प्रजानामत्रयेतेत्यागुम् समर्थयन्तत्र प्रजानामे ऋतारम् प्रणेमप्रायणागेववो यज्ञामुदयणासन्नितस्मादाधित्य प्रायणेन यज्ञानामादित्यमुदयनीयः पञ्चदेवता पञ्च निरोध्याम् पञ्चाक्षरापञ्चः पान्तो यज्ञो यज्ञमेवावरुन्ध मेपत्याग स्वस्तिमयजन्प्राचे मे पदयातिप्राजानन्नग्निना दक्षिणा सोमे न प्रदे जे गुन्धवित्रोदेर्भ्यां पत्याग स्वस्तिञ्जयति प्राजे मे चित वितार विश्वाचितेञ्जलदेयं वा हरिमेव प्रतिष्ठायानवश्यप्तरित विश्वा मारुते प्रयाजा याजास्यैव सा यज्ञस्य सन्ततिस्तत्तथा न कार्यमात्मा वै प्रयाजाः प्रजानो याजायत्प्रयाजानन्तरि याधात्मानमन्तरि याजनो याजानन्तरि यात् प्रजामन्तरि याज खलु वे यज्ञस्य विदधस्य न क्रियते तदनु यज्ञः परा भवति यज्ञं परा भवन्त यजमानान परा भवति प्रयाजव okay, देवानो याजव प्रायणेयं जव उदयनेयन्तात्मानमन्दनप्रजान्तः पराभवधिमानः प्रायणेयस्य निष्कासमुदयनेयमभिषर्वपदि सैवस्य सन्त्याः प्रायणे यस्य गाज्यायता उदयनेयस्य गाज्या कुर्यात्पदा गमङ्गमारोह प्रमाय कस्याज्ञाः प्राहिणेयस्य पुरोनुभाज्ञास्ता उदयनेयस्य गाज्या तस्वोके प्रतिष्ठते कर्द्रोश्च वे सुपर्णेचात्मरूपयोरस्पर्धेतायुम् सा कर्द्रोस्तु पर्णेव जगत् सा ब्रवीत् श्रीयस्यामितो दिविषमस्तमाह रतेनात्मानम् निष्क्रीणेष्वैदीयम् वै कर्द्रोरसोऽसुपर्णे छन्दायम् जगतौ पर्णेया सा ब्रवेदस्मै वै पितरो पुत्रान् बिभृतस्तृयस्यामितो गिविषमस्तमाह रतेनात्मानम् निष्क्रीणेष्वतिमा कर्द्रोर जगत्यमचतुर्दशाक्षरा सतीशा प्रा प्यञ्जवर्तरथस्येद्वे अक्षरे अमीये धातुं सा पशुभिष्ठदे प्रयाला गच्छत्तस्मा जगति छन्दसां पशव्यतमा तस्मात् पशुमन्तं देश्वरु त्रयोदशाक्षरा सतीथा प्रा पेञवत्तरतस्थे द्वे अक्षरे अमीय धातुं सा दक्षिणाभिष्ठतपसा क्षिणानि यन्तयेत्खलु पावदपयत्या सत्यजया ज्योतिषातमस्याजाभ्यरुन्धतंसा मञ्चाहरच्चत्वारिषाक्षराणिक्षरासमपर्यलब्रह्मपातिलमपदन्तिकस्मात् सत्याज्ञायत्री कनिष्ठा छन्दसागं यज्ञमुखम् परियाये ते यदेवादस्व ममाहरक्तस्माद् व्यज्ञमुखम् पर्यये तस्मात् तेजस्मिने तमापद्भ्यान् द्वे सवने समगृह्णान् मुखेन यञ्जन्मुखेन समगृह्णात् तदधयप्तस्माद्वे सवने शुक्रवरेदस्सवनञ्च माद्यञ्जनम् च तस्मात् तृतीय सवनरिजेशमभिषृण्ण्यन्त आशिरमवनयजत शुक्रताया त्तकुम् सोममाणम् गन्धर्व विश्वावसु पर्यमुष्णास्रोरात्रेष्परिमिषुतोमसस्मा तिस्रोरात्रेः श्रीडस्सोमोपसदिते देवाब्रुमान् श्रीकामावे गन्धर्वा स्त्रियानुक्रीडामे दिते वा शग्रुस्त्रियमेकहा गणी तस्मात्रयाय क्रीणाोह्यरूपम् कृता गन्धर्वे क्रम्यातिष्ठत्तद्रोभितो जन्मते देवाद्रुवण्डपयुष्परक्रमेणावत्तरे विश्वयामहाय ब्रह्मगन्धर्वा अवदन्नकायन् देवास्स देवान्पावत्तस्माद्गायन्तज्ञ देवा। देवा स्त्रियः कामयन्ते दे कामुकायेन भवन्ति एवं वेदासोज एवं विद्वाभिजन्येषु भवति चेभ्य एव तय बहुगजा <iggles> क्रीणादिवाचारस्मादय कहाय नामनुष्या वाचं वदन्तको नगाकर्मगाका नगाश्व नया सप्तसभया क्रीणादि सर्वयैवेन क्रीणादिगच्छेतया क्रीणेयाब्दुश्चर्मायजमानस्याे स्यात् प्रमायुको यजमानस्याद्यग्द्विरोपया वा प्रघ्ने स्यात् समा ्यञ्जलीयात्तम् बाण्यो जलनीयातरुगाभिङ्गाक्ष्याक्रीणाद्योमस्तरूपगस्व एवैनम् देवतगाक्रीणाते अधिरण्यमभवत्तस्मादभ्यो हिरण्यम् पुनन्ति ब्रह्मवादिना वदन्ति कस्मा सत्यादनस्थिकेन प्रजाः प्रवीयन्ते स्थन्वदे जायन्तरण्यम् कृते प्रधादनस्थिकेन प्रजाः प्रवीयन्ते स्थन्वदे जायन्ते तद्वाज्ञाः प्रियन्धामयद्धृदन्ते ज्योहिरण्य मीयन्ते शुक्रतनोजलम् वर्जयित्या हसुते जलमेव रोच्यसम्भरेवैन यदबद्धमवदध्या गर्भा प्रजानां परावादुकास्कृमवदधाति गर्भाणां धृत्यै नष्टक्यं बद्धादि प्रजानां प्रजनायवाग्वागेशायत्सो भक्रेणेजो रथेत्याह रुन्धे काण्डे काण्डेवै क्रियमाणे यज्ञगुं रक्षागुंसुं सन्देशोदः पन्थायोश्च सौर्यस्य च सौर्यस्य चक्षुरारुहमग्ने नक्षके निकामित्याहयवा रक्षोहपन्थास्त्रगुंसमारोह पिवाग् यत्साभ्रय नेत्रस्य मनाधे ैवीणामेतत्तस्माच्छाः <muchas> प्रजाजायन्तेह भैरश्रेष्टेत्याहयदेवादित्यप्रायणे यायज्ञानामादित्य उदयनीयस्तस्मादेव वा हयदबद्धा स्यादयदा स्याद्युत्पतिबद्धानुस्तरणे स्यात् क्रमानस्याद्यकर्मगृहीता वार्तघ्ने स्यात् सवान्यञ्जनीयात्कम् वा न्योजनीयान् वित्रस्तापतिबद्धा मित्रो वे शिवो देवानान्ते ्यादिपोषाध्यात्पात्याहेयं वे कोषे मामेवास्याभिपापकः समष्ट्या इन्द्रायाध्यक्षायत्याहेन्द्रमेवास्याध्यक्षं करोतामन्यतामनुजिते त्याहानुमतरे क्रीणातिभादेव देवमच्यैहीत्याह देवी क्येया देवः सोम इन्द्राय स्वाममित्याहेन्द्राय हि सोमः क्रियते यते ्रूयात्पराच्च सोमक्रयणीया दुर्गस्त्वावर्तयत् नित्याहरुद्रोवे क्रोरो देवानान्तमेवास्तेवृत्ते क्रोरमिवत्करो यद्दुर्गस्य कीर्तयति मित्रस्य पथेश्यावशान्ते वाचावाणे च विक्रीडीते यः सोमक्रयण्या स्वस्ति पुनरात्मम् वाचिम्भत्ते अनुपदासुकाश्च वाग्भवय एवम् वेदा षट्पदान्यषणहं <laughs> वाङ्गादिपदत्रिकसंवत्सरस्यायने पाक्तान्धे सप्तमे पदे जुहोदि सप्तपदा षट्परे पशवः षट्परे पशोनेवावरुन्धे सप्तग्राम्या पशवः सप्तारण्या सप्तचन्द्रागस्य भयस्यावरुध्यैवस्य रुद्राधेत्याः रूपमेवास्यानेतं महिमानं जाष्टे बृहस्पतिस्त्वान्दे वत्कृत्याः ब्रह्म ब्रह्मणैमास्ते पदो नवरुन्धे रुद्रो मधुभिराजघेतेत्याह वृत्ते पृथिव्यास्तामूर्धन्नाजगण्यते वैलनयित्याः पृथिव्याज्ञेण ते वैलनमिडायाः पदयत्रापदयत्सो भक्रजन्ये धृजप यस्वाहेत्यावास्ते पदास्मा देवमा हय तद्भज्नाहुयञ्जुया ध्वर्यस्यां हिरण्यमपास्यजो त्यवत्यं रक्षागुं सिद्ध्यन्ति काण्डे काण्डे वै क्रियमाणे यज्ञकं रक्षागुं त्रिखागुं हन्ति परिलिखितं रक्षः परिलिखिता अराधयन् ैत्याहद्वौ वावपुरुषो यं चैव द्वेष्टेश्चैनन् द्वेष्टदयो देवानन्तरालिङ्गेवाकृन्दति पशवो वेदोमक्रयण्यैकैवत्मोदगुं सम्भवति पशूमेवावरुन्धे स्मेना हीतिसम्भवत्यात्मानमेवाधर्यपुर्भ्यो नान्तरेना हीतिगिरमानाय प्रेच्छति गिरमाण एवरयञ्च साधितो तेना हैतिपत्या गृहेषु धत्ते तादृशेवष्टेमती तेषु पेयेत्याहत्वष्टावे पशूनाम्यसुनानागङ्गो भगद्रूपमेव पशुन तथा चस्मै वै लोकायकारिकपत्याधीयते पुष्मा आहवणीयो यद्गारिहपत्य उपभवेदस्मिन् लोकेपसुमान् स्याच्चदाहवणीयमुष्पन् लोकेऽपसमान् स्यादुभयोनुपवपत्युभयो रेवणम् लोकयो पसुमङ्गम् करोति ब्रह्मवादिनो वदन्ति विजित्य स्वाहा न विजित्य गङ्गाजादस्मिपन्नम् गसितमेवाश्रिद्यथास्यादद्यथा कर्णापन्नम् उभयेनैव स्वामविक्रयेण सोमविक्रये क्षोदको ऋणो हस्माहौ वेशस्वामक्रेण एवाहन्ततीयथवनमवरुन्ध इति पशूना छर्मन् विमीते पशूनैवावरुन्धे पशवो हितृतीयगं धनैकामगेता पशुस्यालित्रक्षदस्तस्य ममीतर्क्षं वा अपशव्य पशुरेव भवति यङ्कामगेतपशुमालि लोमरस्तस्य नमीतैलव्यै पशुनायो लोकयो लोके नैवास्मै पशूनवरुन्धे पशुमानैव भवत्यवामन्त्रे ीणाच्योत्याहमेवेन कुरुते शुक्रस्त्रहयत्याह शुक्रो यस्य ग्रहो न साक्षयादिमानमेवास्यावितारमित्य सप्तान्दामि सर्वाणि ्छन्दा मे देवष्व वान्तारदिच्छन्त सत्यानि मे देवष्वैवैन कंसमानाङ्क्यैकैकयोत्सर्गं निमेतय गादयां न्यायालयां यैवेनं विवेदय तस्मान् नानावेर्य अङ्गुलयः सर्वाष्ठहादैर्भ्योऽभिरङ्गुलभिष्टस्मात् सर्वानुजलजय सः सर्वा भग्निवेतशक्तिपृष्टा अङ्कुरयोगायैकैकयोत्सर्गं विमेतस्पाब् विभक्ताजायन्ते पञ्चगर्प यजुषा विमेतय पञ्चाक्षरा पञ्चस्पान्ता यज्ञो यज्ञमेवावरुन्धे पञ्चगत्वस्तोष्णे च सम्पद्यन्ते दसाक्षरा विरालन्नं विराभ्याजैवान्नाद्यमवरुन्धे यज्ञजा विमेत भूतमेवावरुन्धे यत्तोष्णे ैतावानेवैताभिः समर्थयति पशवो वै सोमः प्राणायद्वैत्युपनक्य प्राणमेव पशुषित पशुषितधारितम् अस्मात् स्वमन्तम् प्राणा न जहते कलयाजय सभेजय क्रीणाने रिपनेतागो अर्धगुं सोमं कुर्यादगो अर्ध्यजमानमगो अर्धमद्धर्यं गोस्तु महिमानन्नामतिर गवादय क्रीणाने गो अर्धमेव सोमं करोति गो अर्धयजमानङ्गो अर्धमद्धर्युन्न गोर्धमानमतिरयाधिरण्येन क्रीणा ेवेण क्रेणातिभन्व क्रीणातिभासिरमेवेन ैव वह्नादि क्रीणादि सर्वदेवत्यं वैवानः सर्वाभ्येवैनं देवताभ्यक्रीणादिपद्यन्ते साक्षा विलारण्यं विरा दैवान्नाद्यमवरन्धेजपदस्तनोरवर्णयित्याहभ्य एव आत्मनाय गच्छति श्रेयं नो नां वेदशुक्रन्ते शुक्रेण क्रीणामेत्या हिरण्येन सोममक्रीणं तदभेदः पुनरातयो हिरण्येन सोमं क्रीणेयात्तनरादवेज देवात्मन्धत्तेऽस्मे जोयस्वामविक्रेण त्याह्योेवमसामयतमुपग्रत्पामे दन्तशोकास्तां समागं सर्वा भवन्ति तमसा सोमविक्रयणं विध्यति स्वानभ्राते यतेभ्य स्वामक्रयणाम्नामदिषे क्रीतोमस्यान्नाश्रेतमुष्मिन् लोके सोमगौ रक्षे गेते अभ्यस्वामक्रयणाम तिशति क्रीताश्चेते वारुणो वे प्रेतस्वामपनध्वामित्रो न ये कि सुमित्रधायित्याह शान्त्या इन्द्रस्योरुमाविषदक्षिणमित्याह देवा वैयगंस माक्रेणीन्द्रस्योरौ दक्षिण आसादयन् ने खलु मारे तर्हिन्द्रो यो यज तेजस्मा देवमाहोदायुषा स्वायुषेत्याह देवता देवान् बारभ्योत्तिष्ठनिक्षमन्विःत्याहाञ्जलिक्षदेव yakka त्या सदासीदेत्याहयिवानेन वेददर्धयति यद्वारुणं सन्तम् मैत्रम् करोति वारुण्यत्यासाधयति स्वदेवैनम् देवतया समर्धयति वासदा मर्यानक्षति सर्वदेवत्यं देवादः सर्वाभिदेवैनम् देवताभिः समर्धयत्यथो रक्षसामवहदेवनेषु व्यन्तरिक्षन्तदानेत्याहवने ज्ञमित्याहो यमित्याहो जगुंसा मम ग्रामित्याह ग्रामाहोमञ्जसाजते तस्मादेवमाहोर्यच्चकृष्णार्जिनं सामपहत्यावस्रावेदन्धोरुषाः विद्याह यथा यदुरेव तत्प्रत्यवस्वभुवस्वलित्याः बोधाः गृत्ये विश्वानिक्ये प्रत्यपदेवात्मा परिपरे विदृत्या हयदेवादस्वापमानक्रियमाणङ्गं धर्मा विश्वामधपर्यमुष्णात्तस्मादेव माहापरिमोषा हयजमानस्य स्वस्ति यज्ञमानस्यैवज्ञस्यात्मारम्भोक्षद्येवनोषयजमानमभ्यैकेतस्वाभोद्धनमो मित्रस्य वरुणस्य भग्निनः पुनतिष्ठते तौ सम्भवन्तो विडमानमभिजम् भवतः पुराकलुपावैषमेधाः मानवारभ्यजरतियो देक्षितो हिरग्ने सोमेयम् पशुमानभद आत्मनिष्प्रेणगे वा सरदस्मात् तस्य नाश्यम्प्रेणरग्ने सोमाभ्याम्बा इन्द्रो वृत्तमहन्यग्ने सोमेयम् पशुमानभदेवात्रग्नगेवा सरदस्माद्वाश्यम् वारुण्यच्चा परिचरति स्वयैवैनम् देवतया परिचरति multimodal wow. sacrifices